मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टि त्रि मत्सरासुरतपोवर्णनं श्रीगणेशाय नमः दक्ष उवाच योगिराजोसि भक्त भक्तराजेन्द्रदाचते मदीयं भाग्ययोगेन संप्राप्तं दर्शनं प्रभो अष्टौ ये गणराजस्य ह्यवताराः प्रकीर्तिदाः तान्मे कथय योगीश विस्तरेण महामुने दैत्या सन्निहितास्तैस्तु तेषां जन्मादिकं परं सकलं युद्धभागं मां कथयस्व विशेषदः एतादृशा महादैत्या न श्रुधा कुत्रचित् प्रभो विस्मापयदि चेयं मां कदा पापापनोदिनी मुद्गल उवाच प्रजापदे कथां दिव्यां तव भावनियन्द्रितः कथयामि समासेन गणनाथप्रमोदिनीं प्रथमं वक्रतुण्डस्य चरित्रम् शृणुपुण्यदं मत्सरासुरयुद्धं च गणेशे नमःद्भुतम् इन्द्रस्येन्द्रपदप्राप्तिर्जाता यस्मिन् दिने परा तस्मिन् दिने महोत्साहो वार्षिक्रियदे मुने कदाचिदमरावत्यां महोत्सवपरायणः सुभद्रासन गोतिष्ठद्देवेन्द्रः सर्वभूजितः तावद्देवाः सगन्धर्वा अप्सराभिसमागताः नागायक्षा मुनीन्द्राश्च राक्षसा आगदो आगतो भगवांस्तत्र सर्वभूतगणैर्वृतः स्कन्दनन्दीश्वराद्यैश्च पार्वत्या सह शङ्करः लक्ष्म्या सह स्वयं विष्णुर्विश्वसेनादिभिर्गणैः वेदादिभिर्वृदो ब्रह्मा प्रजापतिभिराय यौ सर्वग्रहैषमयुक्तो भानुस्तत्रागमत् स्वयं अग्निश्चर्मराजस्व कुबे वरुणस्त आदिमनव वसवो रुद्रका साध्या विद्याधरा विश्वे देवस्तु प्रभो अश्विनौ शेषनागश्च बहवस्तत्र चागताः उपविष्टा मुदा युक्ता उत्सवे वै शतक्रदोः तत्र नानाकथाश्चक्रुरानन्दपरिवर्धिनीः मुनयो भावसंयुक्ताः पुरातनभवा मुने नृत्यमप्सरसश्चक्रुर्गन्धर्वाललितं जगु आहा, आहुः हु, मुखा अन्ये तुम्बरुनारदस्तथा वादयन्ति स्म वादित्रं तान् स्तुवन्ति स्म चारणाः हृष्टा पुष्टा, पुष्टा जनास्तत्र स्त्रियः परमकर्षिताः तत्र रम्भाविचित्राणि नृत्यादीनि चकारः भावप्रयुक्तानि चेष्टितानि प्रजापते कन्दुकक्रीडनोद्युक्ता सभायां यत्रतत्रसा। तत्र सा बभ्रामतां प्रपश्यन् सन्निन्द्रो भूत्कामपीडितः मोचितो मञ्चुलरवैर्नृत्यादिकलया तथा कर्तव्यमैव सञ्जज्ञौ तन्मनास्स सुरेश्वरः शीघ्रमेव समाप्तं तमुत्सवं कृतवान् स्वयं सर्वे स्वस्वस्थलं जग्मुर्मानिदाकर्षिता विभो रम्भां निमन्त्र्य चेन्द्रश्च जगामवनमेकलः नानापरिमलर्युक्ता यत्र वृक्षाः सुपुष्पिताः नानाप्रस्रवयुक्तानि निर्मलानि जलानि च सुवर्णपद्मशोभानि षट्पधैः शोभितानि च इत्यादिकामपुष्ठानि नानावस्तुयुतानि च वनानि तत्र रेमे सविन्द्रकामविमोहितः रम्भया सक्तचित्तस्य वज्रण क्रीडतो भृशं न तृप्तिरभवत्तत्र हृदेन दहनस्य तत्राजगाम तत्रा जगाम दुर्वासास्वेच्छया वितरन्मुनिः तं दृष्ट्वा लज्जितो राजा देवानां विनयं श्रुतः त्यक्त्वा रम्भां नमस्कृत्य तं मुनिं प्राञ्जलिस्थितः तादृशं तं परित्यज्य जगाम मुनिसत्तमः अधिविह्वलगात्रत्वाच्चस्कन्दसुरशत्रुः रेदोभूत्पतितं भूमौ तस्माद् दैत्यसमुद्भवः इन्द्रोऽभिः स्वगृहं गत्वा रम्भां त्यक्त्वा चकारः सुराणाम् अखिलं राज्यमात्मानं निन्दयन्मुहुः अहो धिग्पदराज्यं मे सुराणां स्त्रीजिदस्य च असुराणामिवात्यन्तं मनो मे चञ्चलं भृशम् पुंश्चल्यमोहितं नित्यं दिङ्क् मां साध्वभिनिन्दितम् कुकूर्म कृत्यदोषाच्च भयमग्रे भविष्यति इत्येवमात्मनात्मानं निन्दयामास देवपः स्वधर्मे संस्थितो दक्ष वृत्रः पुनरेव च इन्द्रवीर्याच्च कालेन भूम्यां जादो महासुरः तं पृध्वी पालयामास तनपानादिना भृशं स दुःसंवृद्धे तत्र हिमाचल इवापरः आजानो बाहुर्दीर्घाक्षो महावक्षा महाबलः रक्तवर्णक्रूरकर्मा यथाग्निर्जुवलिदो बभौ नाम तस्या करोद्भूमिर्मत्सरेदि स्वभावतः पञ्चवर्षवयोगस्य चोपवीदप्रदानकं ब्राह्मणै कारयामास धरित्रीस्नेहभावदः सदुवेदादिकं सर्वं शिक्षितुं गुरुसन्निधौ स्थित आर्जवसंयुक्तो ग्राहकश्रवणेन वै महाबुद्धिः स नालपेन कालेना वेदाधि दुर्बुद्धे कन्याम रम्यावाह विलासी ना मतकयशोभिनी चुरास्यु विषय सेवर्धि विवर्धिनी, कम दिवसे मधिर्जा दुरात्मन विपुल सुतपस्तप्त्वा जेयं ब्रह्माण्डमोजसा सशुक्रमुपसंगम्य विद्यां पञ्चाक्षरीमगाद तपःसा च तया शम्भुं तोषयामास भक्तितः निर्जने वन एकान्ते पुष्पपल्लवशोभिते कन्दमूलफलोपेदे सुजले संस्थितोतपद दिव्यवर्षसहस्रं स निराहारतया स्थितः जपन् पञ्चाक्षरं मन्त्रं ध्यात्वा हृदि दीक्षां पाशुपदीं धृत्वा तोषयामास शङ्करं सस्य प्रतपस देवाः क्षुपिताश्च समन्ददः न प्रकाशो रविराशीन्नाग्निज्वालभास्वरः भूतान्याकुलतां तत्र प्राप्तानि तपसो बलाद् देवासर्षिगण सर्वे शङ्करं शरणं ययुः मत्सरस्य तपस्तप्तान् रक्ष नो जगदीश्वर शङ्करस्थै समयुक्तः पार्वत्याः स्वगणैः सह तं देशमगमत्पृष्ठो भक्तं ज्ञातुं महाद्भुतम् अस्तित्वचाश्रमायुक्तं श्वासमात्रावशेषितं हीनाङ्गमावृतं तत्र वल्मीकेन समन्ततः महोग्रतपसायुक्तं देवा सर्वे विसिस्मिरे ऋषयोऽपि महाभागा दृष्ट्वा तं तापसं परम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरतपोवर्णनं नाम त्रयोविंशतितमोऽध्यायः ओ